मणिकर्णि गणपति पद्मं कल्हारपुष्पं निजकरकमलैरुत्पलं मोदकं च हस्ते मालां दधानं नवमणिकचितैर्भूषणैर्भूषिताङ्गं शुभ्राभं चन्द्रचूडं गजवरवदनं पुण्यदा पापहं त्री सम्राजत्पार्श्वयुग्मं मम कर्णी गणेश भजे